गणेशपुराणम् उपासनाखण्डम् अध्यायं फिफ्टि टु पार्वत्युवाच नलेनेदं कृतं कस्मात् को नलो त्वदमेपिदः मनोविश्रान्तिमायादिशृण्व्या मे कथानकं हिमवानुवाच निषद्धेषु महाराजो नलो नामाभवत्पुरा ब्रह्मण्यो वेदविच्छूरो दानी मानी धनीमुनिः रथी खड्गी शरी चापि निषङ्गि कवची बली कृधास्त्रो देवपूज्यश्च त्रिलोकी शेषोऽपि मोकदां व्याधिवर्णितं यद्गुणानपि न सङ्ख्या विद्यते श्वानां गजानां रथीनां तथा धानुष्काणां शस्त्रभृताम् अग्निशस्त्रभृतामपि शकंभुर्यद्भयाद्देव इन्द्राद्या सदिगीश्वराः दमयन्तीति भार्यासीद्यस्य सौन्दर्यमन्दिरं दमयित्वाखिलान् ब्रह्मा सारं प्रगृह्य च दमयन्तीति विख्याता यतस्तेनेधिनिर्मिता दमयन्त्यै त्रिलोकस्ता नीण चारुता मददादनालयुक्ता नाना नानामणिभूषिता मुक्ता हल सत्क सगुणाढ़शोभना यो महाना सीत पद्म्रमी बुद्ध्या बृहस्पतिसमो नए चांगिशद गाभीर् चोदधे सदाचिदुपीष्टसौ नलो राजा महामनाशसादसभागे नृपमण्डलमध्यगः नृत्यन्त्याप्सरसस्तस्य पुरतश्चारुदर्शनाः स्तुवन्दिबन्दिनस्तं च ब्रह्मर्षिगणसंयुधं एतस्मिन्नेव काले तु गौतमौ नृपतिं ययौ उद्धाय सादरं राज्ञास्वासने विनिवेशितः कूजिदः परयाभक्रिया ततः पप्रच्छतं नलः नल दर्शने स्वामिन्ननुगृहीतस्ते दर्शनेन जन्मराज्यं पिदामादा कुलं जीवितमध्य मे सफलं स्वागमेहेदुम् वदतुर्णं महामुने गौतम उवाच ममास्यीन्म कदीवाञ्चा दृष्टुं ते वैभवं नृप स्तुवन्ति देवाः स्वर्गस्ता ब्रह्मेन्द्रहरिशूलिनः धन्योऽसि मर्त्यलोकस्थो मर्त्यैर्वेवैश्च नित्यधृप्तोऽप्यहं तृप्तः पूजां दृष्ट्वा च वैभवम् इदानीमनुजानीहि गमिष्ये स्वाश्रमं प्रति नल उवाच वेदवेदाङ्गविद्भ्रह्मन् सर्वशास्त्रप्रवर्तका दयानिधेक्षणं स्थित्वा चिन्दि मे संशयं मुने मुनिरुवाच साधु पृष्टमहाराजस्तिदोहं स्नेहभावतः नागा नृपाश्च देवाश्च यत्तेनाज्ञा विलङ्घिनः नृप उवाच ममैव विस्मयो ब्रह्मन्निरीक्ष्य वैभवं स्वकं युद्धं ममा पुण्य नपिवा मुनवाच गौंधदेशापरे देशे पुरे पिपलसमी क्षत्रि पूर्व दरिद्रो ज्ञानवांशुचि जायाप्त सुचस्ताड़िदृशम रात्रावपृष्ट्वा सर्वां त्वं निर्वेदाद्गहनं वनं गतवान् वृक्षवल्लीभित्सिंहव्याघ्रगजैर्मृगैः सेवितं शीतजलै सरोभिर्जलजातिभिः आश्रमो धत्वया दर्शिभ्रमदा भ्रमदावने तपोनिधे कौशिकस्य वेदकोशनिनादिदः तत्र गत्वा मुनिं तं त्वं प्रणदो भक्तिभावदः उद्धापिध कौशिकेन दीनानाथ दयावता दुःखितं त्वां विदित्वा स आशीर्वादमवीवदत् गजाननो देवेशो भविता ते शुभङ्करः श्रुत्वा तदाशिषं सौम्यां प्राप्तोऽसि परमां मुदं पृष्टवानसितं विप्रमुपायं सर्वकामदं दारिद्र्यनाशकं राजन् भुक्तिमुक्तिप्रदं शिवं गणेशाराधनं तुभ्यं मास कथयास कौशिकशिक उवाच व्रत गुरगणेशसमात्र नाधिप कुमूर्ति गणेश मृन्मय चारुदर्शना पूर्वो विधिना पूजा कुृणु कधानक दिने दिने मासमात्रं तदस्सिद्धिमवाप्स्यसि मुनिरुवाच इति श्रुत्वा कौशिकं तं पप्र भूमिपः पुनः गजाननं न जानामि तत्स्वरूपं वदस्वमे मे ज्ञात्वा तं देवदेवेशं करिष्ये व्रतमुत्तमम् इति तेन कृते प्रश्ने जगादमुनिसत्तमः अनिर्वाच्यस्वरूपस्य परब्रह्मस्वरूपिणः वैकारिकस्वरूपाणि गजाननकृतानि कौशिक उवाच ह्यः कर्ता सर्वलोकानां पिता मादा जगद्गुरुः ब्रह्मेन्द्रशिवविष्णूनां ध्येयो यः स गजाननः मुनिरुवाच इति श्रुत्वा तु तद्वाक्यं प्रणिपत्यमुनीश्वरम् अनुज्ञातस्तदस्तेन ददोऽसि निजमन्दिरम् आरभ्य श्रावणे शुद्धे च दुर्ध्यां व्रतमुत्तमम् अकरो मृण्मयी मूर्तिं गणेशस्य यथोदितां स्थाने च वचने मौने गमने शयने भुजि ध्यायन् गजाननं देवं प्राया सिद्धिमनुत्तमां नानां गजरथाश्वाद्यैर्गोधनैर्धनसञ्चितैः दासी दासयुध्रीमान् जादोव्रतप्रभावतः दत्तमानसिदानानि सर्वाणि देवतुष्टये गणेशस्य महामौल्यं प्रासादं कृतवान्मुदा भुक्त्वा भोगान्यथा कामं कालेन निधनं गदः जादोऽसि निषद्धे देशे निर्पस्त्वं नलनामकः चला लक्ष्मी त्रिलोकी जनवन्दिते इदानीमनुजानीहि यत्पृष्टं तन्निरूपितं हिमवानुवाच एवं गदे गौदमे दुव्रदं चक्रे नलो नृपः तद्वाक्याज्जादविश्वासो मूर्तिं कृत्वा सुशोभनाम् श्रुत्वा कथां गणेशस्य प्रत्यहं पूज्यभक्तिदः अलभत् सर्वकामान् सव्रतस्यास्य प्रभावदः इति ते कथितं कन्ये कृतं व्रतं उपदिष्टं गौदमेन पूर्वजन्म व्रतम् व्रतं यस्य प्रभावः सम्पूर्णो वक्तुं केनापि नेष्यते यदि श्रीगणेशपुराणे उपासनाखण्डे नलव्रतनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॐ